ुषा ईदुषा प्रजाम् प्रजामायुः प्रजामिति प्राजाम् आयुर्धनम् धनम् चेति च बृहस्पतिप्रसूतो यजमानः बृहस्पतिप्रसूत इति बृहस्पतिप्रसूतः यजमान इह इह मादिशत् दिशदिति रिषत् आजमसि असि सत्यम् सत्यमसि असि सत्यस्य सत्यस्याध्यक्षम् अध्यक्षमसि अध्यक्षमित्यधि अक्षम् असि हविः हविरसि असि वैश्वानरम् वैश्वानरम् वैईश्वदेवम् वैश्वदेवमुत्पूतसुष्मम् वैश्वदेवमिति वैश्वादेवम् उत्पूतसुष्मकम् सत्यौजाः उत्पूतसुष्ममित्युत्पूता शुष्मम् सत्यौजा इति सत्या भोजाः असि सहमानम् सहमानमसि असि सहस्व सहस्वारातीः रतेः सहस्व सहस्वारातीयतः रतीयतः सहस्व सहस्वपृतनाः पृतनाः सहस्व सहस्वपृतन्यतः पृतन्यत इति पृतन्यतः सहस्रवीर्यमसि सहस्रवीर्यमिति सहस्रावीर्यम् असि तत् तन्मा मा जिन्वा जिन्वाज्यस्य आज्यस्याज्यम् आज्र्यमसि असि सत्यस्य सत्यस्य सत्यम् सत्यमसि असि सत्यायोः सत्यायुरसि सत्यायुरिति सत्या आयुः असि सत्यशुष्मम् सत्यशुष्ममसि सत्यशुष्ममिति सत्याशुष्मम् असि सत्येन सत्येन त्वा त्वाभि अभिघारयामि तस्य तस्य ते ते भक्षीर भक्षीरपञ्चानाम् पञ्चानाम् त्वावातानाम् वातानायन्त्राय यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामिवञ्चानाम् रञ्जानाम् त्वार्तॄणाम् रोणाय्यन्त्राय यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णाविमञ्चानाम् रञ्जानाम् त्वाः त्वादिशाम् दिशाम् यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि पञ्चानाम् पञ्चानाम् त्वापञ्चजनानाः पञ्चजनानाम् यन्त्राय पञ्चजनानामिति पञ्च यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि चरोः चरोस्ताः त्वापञ्चबिलस्य पञ्चबिलस्य यन्त्राय पञ्चबिलस्येति पञ्चबिलस्य यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि ब्रह्मणः ब्रह्मणस्त्वा खषत्रस्य त्वा तेजसे तेजसे यन्त्राय यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि क्षत्रस्य क्षत्रस्य त्वा ओजसे ओजसे यन्त्राय यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि विषे विषे त्वा त्वायन्त्राय यन्त्राय धर्त्राय धर्त्राय गृह्णामि गृह्णामि सुवीर्याय सुवीर्याय त्वात् सुवीर्यायेति त्वागृह्णामि गृह्णाभि सुप्रजास्त्वाय सुप्रजास्त्वायत्वा सुप्रजास्त्वायेति सुप्रजाःत्वाय त्वागृह्णामि गृह्णामिरायः रायस्पोषाय पोषाय त्वा त्वा गृह्णामि गृह्णामि ब्रह्मवर्चसाय ब्रह्मवर्चसाय त्वा ब्रह्मवर्चसायेति ब्रह्मवर्चसाय त्वा गृह्णामि गृह्णामि भोः भोरस्माकम् अस्माकम् हविः हविर्देवाना देवानामाशिषः आशिषो यजमानस्य आशिषैत्या आशिषः यजमानस्य देवानाम् देवानाम् त्वा देवताभ्यः देवताभ्यो गृह्णामि गृह्णामि कामाय कामाय त्वा त्वा गृह्णामि गृह्णामीति गृह्णामि ध्रुवोऽसि असि ध्रुवः ध्रुवोऽहम् सजातेषु भूयासम् सजातेष्विति सा जातेषु धीरः धीरश्चेत्ता चेत्तावसुविद् वसुविग्रह वसुविदिति वसोवित् उग्रोऽसि अस्युग्रः उग्रोऽहम् अहर्पुंसजातेषु सुजातेषु भूयासम् सुजातेष्विति सा जातेषु भूयासमुग्रः उग्रश्चेत्ता चेत्तावसुविद् वसुविदभिभोः वसुविदिति वसोवित् अभिभूलसि अभिभूरित्यभिभोः अस्यभिभोः अभिभूलहम् अभिभोरित्यभिभोः अहगुंसजातेषु स जातेषु भूयासम् स अभिवो जातेष्वपि स जातेषु चेत्ता वसुवित् वसुविद्युनज्मि वसुविदिति वसुवित् युनज्मि त्वा ब्रह्मणा ब्रह्मणा दैवेन अस्मै वोढवे वोढवे जातवेद इति जातः वेदः इन्धा नास्त्वा त्वा सुप्रजसः सुप्रजसः सुवीरा आह सुप्रजस इति सोऽप्रजसः सुवीरा ज्योर् सुवीरा इति सो वीरा वयम् बलिहृत इति बलिहृतः वयन्तेः तैरिरे अन्मेः मे अग्नेः अग्ने अस्य अस्य यज्ञस्य यज्ञस्य ऋष्यात् रिशाद, ऋष्याद्यत् विद्वाः वा स्कन्दात् स्कन्दादाज्यस्य आज्यस्योत उत विष्णो विष्णो हि विष्णो तेन हन्मि हन्मिसपत्नम् सपत्नम् दुर्मरायम् दुर्मरायुमा दुर्मरायमिति तुयुम् ऐनम् एनम् एनम दधामि दधामि निरृत्याः निरवृत्या उपस्थे निरवृत्या इति नृत्याः उपस्थयुपास्थे भोर्भुवः भुवः सुवः सुवरुच्छुष्मः उच्छुष्मो अर्णे उच्छुष्म शुष्मः अर्णे यजमानाय यजमानाय इति एधिनि इषुष्मो अभिदासते निषुष्म इति नीषुष्मः अभिदासत इत्यभिदासते देवे एद्ध देवे एद्धमन्विद्ध देवेद्धेति देव इद्ध वन्विद्धमन्द्रजिह्वा वन्विद्धेति मनो युद्ध मन्द्रजिह्वामर्त्यस्य मन्द्रजिह्वेति मन्त्रजिह्वा अमर्त्यस्यते ते होतः कोतर्मूर्धन् मूर्धन्ना आजिघर्मि जिघर्मिजः राजस्पोषाय कोषाय सुप्रजास्त्वाय सुप्रजास्त्वाय सुवीर्याय सुप्रजास्त्वायेति सुप्रजाहत्वाय सुवीर्याय मनः सुवीर्यायेति सौवीर्याय मनोऽसि असि प्राजापत्यम् मनसा प्राजापत्यमिति प्राजापत्यम् मनसा मा भूतेन भूतेना आविष विषवागवागसि अस्यैन्द्रिय ऐन्द्रिय सपद्मक्षयणि सपद्मक्षयणि वाचा सपद्मक्षयणेति सपद्माक्षयणि वाचा मा मेन्द्रियेण इन्द्रियेण आविश विश वसन्तम् वसन्तमृतूणाम् ऋतूणाम् प्रीणामि प्रीणामि सः स्मा मा प्रीतः प्रीतः प्रीणातु प्रीणातु ग्रीष्मम् ग्रीष्ममृतूणाम् ऋतूणाम् सः स्मा मा प्रीतः प्रीतः प्रीणातु ऋतूणाम् ऋतूणाम् प्रीणामि प्रीणामिताः का मा प्रीताः शरदम् शरदमृतूणाम् ऋतूनाम् प्रीणामि प्रीणामि सा मा प्रीता प्रीता प्रीणातु हेमन्तशिशिरामिति हेमन्ता शिशिरौ ऋतूनाम् प्रीणामि प्रीणामि तौ तौ मा प्रीतौ प्रीतौ प्रीणीता प्रीणीतामग्निसोमयोः अहम् देवयज्ञया देवयज्ञया चक्षुष्मान् देवयज्ञयेति देवायज्ञया चक्षुष्मान् भूयासम् अहम् देवयज्ञया देवयुज्ञयान्नादः देवयज्ञयेति देवायज्ञया अन्नादो भूयासम् अन्नाद इत्यन्नादः भूयासम् दब्धिः दब्धिरसि अस्य लब्धः अलब्धो भूयासम् भूयासममुम् अमुम् दुखेयम् दुखेयमग्निसोमयोः अग्निशोमयोरहम् अग्निसोमयोरित्यग्नीसोमयोः अहम् देवयुज्ञया देवयज्ञया पुत्रः देवयज्ञयेति देवायज्ञया पुत्राः भूयासम् भूयाहेति पुत्राः भूयासमिन्द्राग्न्ययोः इन्द्राग्न्ययोरहम् इन्द्राग्न्ययोरितीन्द्राग्न्योः अहम् देवयज्ञयाः देवयज्ञयेन्द्रियावी देवयज्ञयेति देवयज्ञयाः इन्द्रियाव्यन्नादः अन्नादो भूयासम् अन्नाद इत्यन्नादः भूयासमिन्द्रस्य इन्द्रस्याहम् अहम् देवयज्ञयाः देवयज्ञयेन्द्रियावी देवयजयेति देवायज्ञया इन्द्रियादि दे भूयासम् भूयासम् महेन्द्रस्य महेन्द्रस्याहम् महेन्द्रस्येति महा इन्द्रस्य अहम् देवयज्ञयाः दे देवयज्ञया जयमानम् देवयज्ञयेति देवायुजया जयमानम् देव देव दे देवा महिमानम् महिमानम् गमेयम् गमेयमग्नेः अग्नेः सृष्टकृतः सृष्टकृतोऽहम् सृष्टकृत इति सृष्टाकृतः अहम् देवयुजयाः देवयज्ञयायुष्मान् देवयज्ञयेति देवायज्ञयाः आयुष्मान् यज्ञेन यज्ञेन प्रतिष्ठा प्रतिष्ठाङ्गमेयम् प्रतिष्ठामिति प्रतिष्ठा गमेयनियमेयम् अज्ञर्मा मा दुरिष्टाद् दुरिष्टाद्पादो दुरिष्टादिति दुहोरिष्टात् पातु सविका सविकाघशपम्सात् अघशकुम् साद्यः अघशकुम् सादित्यघाशपम् सात् व्योमेः मेन्ति अन्ति दूरे दूरे रागीयति रागीयति तम् तमेतेन एतेन देशम् ज्येषु सुरूपवर्षवर्णे सुरूपवर्षवर्णाः सुरूपवर्षवर्ण इति सुरूपा वर्षवर्णेः एहि इहीमान् इमान् भद्रान् भद्रान् दुर्यान् दुर्यागुम् अभ्या एहि इहि माम् मामनुव्रता अनुव्रतानि अनुव्रतेत्यनूव्रताः न्यो ऋषीर्षाणि शीर्षाणि मृग्मम् वृग्ध्वमिडेः व्रद्धं, इडवा एहि एह्यदिदे अदिगला एहि इहि सरस्वति सरस्वत्या एहि इहि रन्तिः रन्तिरसि असि रमतिः रमतिरसि असि सूनरीः युष्टे युष्टिम् युष्टिम् ते केशीय अशीयोपहूते उपहूत उपहवम् उपहूत इत्युपाहूतेः उपहवन्तेः उपहवमित्युपाहवम् अशीयसा सा मे सत्या सत्याशीः आशीलस्य आशीरित्या आशीः अस्य यज्ञस्य यज्ञस्य भूयाद् भूयादरेणता अरेणता मनसा मनसा तत् तच्छकेयम् शकेयम् यज्ञः यज्ञोदिवम् दिवगम् रोहतु रोहतु यज्ञः यज्ञोदिवम् दिवम् गच्छतु गच्छतु यः यो देवयानः देवयानः पन्थाः पन्थास्तेन तेन यज्ञः यज्ञो देवान् देवागुमपि अप्येतु एतस्मासु अस्मास्विन्द्रः इन्द्र इन्द्रियम् इन्द्रियम् दधातु अस्मान् द्धाद वस्मान रायः प्राय उत उत यज्ञाः यज्ञाः सचन्ताम् सचन्तामस्मासु अस्मासु सन्तो सन्त्वाशिषः आशिषः सा आशिष इत्या आशिशा हा, सुप्रतोर्तिर्मघोलीः सुप्रतोर्तिरितिसौप्रतोर्तिः मघोनीजुष्टिः दुष्टिरसि असि तुषस्स जुषस्सनः नो जुष्टाः दुष्टानः नोऽसि असि दुष्टिम् दुष्टिम् ते ते गमेयम् मनः मनो ज्योतिः ज्योतिर्जुषताम् जुषतामाज्यम् आज्यम् विच्छिन्नमितिविच्छिन्नम् यज्ञपुंसम् स भिमम् इमम् दधातु दधाद्विति दधातु बृहस्पतिस्तमताम् तमताभिमम् देवा इह इह मादयन्ताम् मादयन्तामिति मादयन्ताम् ब्रधविन्वस्व विन्वस्व ददतः ददतो मे कुर्वतो मे मे मा मोप उपदसत् दसत् दसत प्रजापतेः प्रजापतेर्भागः प्रजापतेरिति प्रजापतेः भागोऽषि अस्योर्जस्वान् ऊर्जस्वान् पयस्वान् पयस्वान्प्राणापानौ प्राणापानौ मे प्राणापानाविति प्राणापानौ मे पाहि पाहि समानव्यानौ समानम् व्यानौ मे समानम् व्यानाविति समानव्यानौ मे पाहि पाह्युदानव्यानौ उदानम् व्यानौ मे उदानम् व्यानावित्युदानव्यानौ नेपाहि पाह्यक्षितः रक्षितोऽसि अस्यक्षित्यै रक्षित्यै त्वामा मामे मे श्रेष्ठाः श्रेष्ठा अमुत्र अमुत्रामस्मिन् अमुष्मिल्लोके लोक इति लोके बर्हिषोऽहम् अहम् देवयज्ञयाः देवयज्ञयाः प्रजावान् देवयज्ञेति देवयज्ञया प्रजावान् भूयासम् प्रजावानिति प्रजावान् भूयासम् न राश्रपंसस्या न राश्रपुंसस्याहम् अहम् देवयज्ञयाः देवयज्ञया पृषमान् देवयज्ञयेति देव यज्ञयाः पृषमान् भूयासम् पृशवानिति पृशुमान् भूयासमग्नेः अग्नेः स्विष्टकृतः श्रिष्टकृतोऽहम् शृष्टकृत इति स्विष्टागः अहम् देवयज्ञया देवयज्ञयायुष्मान् यज्ञेन यज्ञेन प्रतिष्ठाम् प्रतिष्ठाङ्गमेयम् प्रतिष्ठामिति प्रगेस्थाम् गमेयमग्नेः अग्नेरहम् अहमुज्जितिम् उज्जितिमनो उज्जितिमित्युतोजितिम् अनोद् सोमस्याहम् अहमुद्यितिम् उज्जितिमनो उज्जितिमित्यतजितिम् अनोद उज्जेषम् एषमग्नेः अग्नेरहम् अहमुज्जितिम् उज्जितिमनो उज्जितिमित्यतजितिम् अनोद उज्जेषम् एषमग्नीसोमयोः अग्निशोमयोरहम् अग्निशोमयोरित्यग्नीसोमयोः अहमुज्जितिम् उज्जितिमनो उज्जितिमित्यतजितिम् अनोद उज्जेषम् इन्द्राग्ल्योरहम् इन्द्राग्ल्योरितीन्द्राग्ल्योः अहमुज्जितिम् उज्जितिमलौ उज्जितिमित्युत् जितिम् अनोद् उज्जेषम् ज्येषमिन्द्रस्य इन्द्रस्याहम् अहमुज्जितिम् उज्जितिमलौ उज्जितिमिद्युत् जितिम् अनोद् उज्जेषम् ज्येषम् महेन्द्रस्य महेन्द्रस्याहम् महेन्द्रस्येति महा इन्द्रस्य अहमुद्यतिम् उज्जितिमनो उजितिमित्युत जितिम् अनोद् उद्येषम् अग्नेः सृष्टकृतः सृष्टकृतोऽहम् सृष्टकृत सृष्टाकृतः अहमुद्यतिम् उद्यितिमनो उद्यितिमिद्युत जितिम् अनोद् उद्देशम् एषम् मा मा प्रसवेन प्रसवेनोवद्ग्राभेण प्रसवेनेति प्रासवेन उद्ग्राभेणोद् उद्ग्राभेणेति ग्राभेण उदग्रभीत् अग्रभीदित्यग्रभीत् अथा सपद्नाल सपद्नागुम् इन्द्रः इन्द्रो मे मे निग्राभेण निग्राभेणाधरान् निग्राभेणेति निग्राभेण अधरागुमकः अकरित्यकः उद्ग्राभम् च उद्ग्राभमित्युल् ग्राभम्ग्राभम् निग्राभम् च निग्राभमिति निग्राभम् स ब्रह्म ब्रह्मदेवाः देवा अविवृधन् अविवृधन्नित्यवीवृधन् अथ सपद्नान् सपद्नानिन्द्राग्नी इन्द्राग्नि मे इन्द्राग्नी इति इन्द्रा मे विशोचीनान् विशोचीनान् वि यस्यताम् अस्यतामित्यस्यताम् येमाः इमा अग्मन् अग्मन्नाशिषः आशिषो दोहकामाः दोहकामा इन्द्रमन्दः दोहकामा इति दोहकामाः इन्द्रवन्तो वनामहे इन्द्रवन्त इतिन्द्रवन्तः वनामहे धुक्षीमहि दुक्षीमहि प्रजाम् प्रजामिषम् प्रजामिति प्राजाम् इषमितीशम् रोहितेन त्वा त्वाग्निः अग्निर्देवताम् देवतानाम् गमयतु गमयतु हरिभ्याम् हरिभ्याम् त्वा हरिभ्याः त्वेन्द्रः इन्द्रो देवताम् देवताम् गमयतु गमयत्वेतशेन एतशेन त्वा सूर्यः सूर्यो देवताम् देवताम् गमयतु गमयतु वि वितेः ते उञ्चामि उञ्चामि रशनाः रशनावि विरश्मीन् यानि परिकर्तनानि परिकर्तनानि धर्तात् परिकर्तनानीति परिचर्तनानि धर्तादस्मासु अस्मासु द्रविणम् द्रविणम् यत् यच्च च भद्रम् भद्रम् प्रणहः नोऽब्रूतात् ब्रूताद्भागधान् भागधान् भागधान देवतासु भागधानिति भागधान् देवतास्विति देवतासु विष्णोः शञ्जोः शञ्जोरहम् शञ्जोरिति संयोः अहम् देवयज्ञयाः देवयज्ञया यज्ञेन देवयज्ञयेति देवा यज्ञया यज्ञेन प्रतिष्ठाम् प्रतिष्ठाङ्गमेयम् प्रतिष्ठामिलिप्रतीस्थाम् गमेयुम् सोमस्य सोमस्याहम् सो अहम् देवयज्ञयाः देवयज्ञया सुरेताः देवयज्ञयेति देव यज्ञयाः सुरेता रेतः इति सुरेताः रेतो धिशीय धिशीय त्वष्टुः तुष्टुरहम् अहम् देवयज्ञया देवयज्ञया पशूनाम् देवयज्ञयेति देवायज्ञयाः पशूनागम् रूपम् रूपम् पुषेयम् पुषेयम् देवानाम् देवानाम् पत्नीः पत्नीरग्निः अग्निर्गृहपतिः गृहपतिर्यज्ञस्य गृहपतिरिति गृहपतिः यज्ञस्य मिथिलम् मिथुलम् तयोः तयोरहम् अहम् देवयज्ञया देवयज्ञया मिथिलेन देवयज्ञयेति देवयज्ञया मिथुनेन प्रभूयासम् भूयासम् वेदः वेदोऽसि असि वित्तिः वित्तिरसि असि विदेय विधेयकर्म कर्मासि असि करुणम् करुणमसि असि क्रियासम् क्रियासकम् सनिः सनिरसि असि सरिता सरितासि असि सनेयम् सनेयम् घृतवन्तम् घृतवन्तम् कुलायिनम् घृतवन्तमिति घृतावन्तम् कुलायिनकम् राजः राजस्पोषम् पोषकम् सहस्रिणम् सहस्रिणम् वेदः वेदो ददातु ददातु वाजिनम् वाजिनमिति वाजिनम् आप्यायताम् प्यायताम् ध्रुवा धुवा घृतेन यज्ञं यज्ञं यज्ञम् प्रति यज्ञं यज्ञमिति यज्ञम् यज्ञम् प्रतिदेवयद्भ्यः देवयद्भ्य इति देवयत्भ्यः अदित्या उपस्थेः उपस्थ उरुधारा उपस्थ इत्युपास्थेः उरुधारा पृथिवी उरुधारेत्युरुधारा पृथिवी यज्ञे यज्ञे अस्मिन् अस्मिन् इत्यस्मिन् प्रजापतेर्विभान् प्रजापतेरति प्रजापतेः विभान्नामदितिविभान् नाम लोकः लोकस्तस्मिन् तस्मिन् दृष्ट्वा त्वा दधामि दधामि सः सह यजमानेन यजमानेन सत् सदसि असि सम्मे मे भूयाः भूयाः सर्वम् सर्वमसि असि सर्वम् सर्वम् मे मे भूयाः भूयाः पूर्णम् असि पूर्णम् पूर्णम् मे मे भूयाः भूया अक्षितम् अक्षितमसि असि मे मे क्षेष्ठाः क्षेष्ठाः प्राच्याः प्राच्याम् दिशि देवा ऋत्विजः ऋत्विजो मार्जयन्ताम् मार्जयन्ताम् दक्षिणायाम् दक्षिणायाम् दिशि दिशिमासाः मासाः पितरः पितरो मार्जयन्ताम् मार्जयन्ताम् प्रतीच्याम् प्रतीच्याम् दिशि दिशिग्रहाः ग्रहाः पशवः पशवो मार्जयन्ताम् मार्जयन्तामुदीच्याम् उदीच्याम् दिशि दिशापः आपवोषधयः ओषधयो वनस्पतयः वनस्पतयो मार्जयन्ताम् मार्जयन्तामूर्ध्वायाम् ऊर्ध्वायाम् दिशि दिशि यज्ञः यज्ञः संवत्सरः संवत्सरो यज्ञपतिः संवत्सर इति संवत्सरः यज्ञपतिर्मार्जयन्ताम् अभिमातिहेत्यभिमातिहा गायत्रेण छन्दसा छन्दसा पृथिवीम् पृथिवीमनो अनुवि विक्रमे क्रमे निर्भक्तः निर्भक्तः सः निर्भक्त इति हि भक्तः स अयम् यन् विष्णः विष्माविष्णोः विष्णोः क्रमः क्रमोऽसि अस्यभिषस्त्यः अभिषस्त्यहा त्रैष्टुभेन अभिषस्तिहेत्यभिषस्ति हा त्रैष्टुभेन अन्तरिक्षमलो अनवि विक्रमे क्रमे निर्भक्तः निर्भक्तः सः निर्भक्तरिणिः भक्तः सयम् इम् विष्मः विष्णो विष्णोः विष्णाः क्रमः क्रमोऽसि अस्यातीयतः रातीयतो हन्ता हन्ताजागतेन जागतेन छन्दसा जागते छन्दसा दिवम् दिवमलो अनवि विक्रमे क्रमे निर्भक्तः निर्भक्तः सः निर्भक्त इतिः भक्तः सयम् इयन्विष्मः विष्मो विष्णोः विष्णोः क्रमः क्रमोऽसि असि शत्रु यतः शत्रु यतो हन्ता शत्रु यत इति शत्रु यतः हन्तानुष्टुभेन आनुष्टुभेन छन्दसा आनुष्टुभेनेत्यानोस्तुभेन दिशः दिशोनु अनुविक्रमे क्रमे निर्भक्तः निर्भक्तः सः निर्भक्त इतिः भक्तः सयम् यन्द्रीष्मः ग्रीष्म इति ग्रीष्मः अगन्मसुवः सुवःसुवः सुवरगन्म अगन्मसन्दृशः सन्दृशस्ते सन्दृश इति सन्दृशः ते यत्ते ये ते तपः तपस्तस्मै तस्मै ते वृक्षिसुभोः सुभोरसि सुभोरिति सोभोः असि श्रेष्ठः श्रेष्ठो रश्मीणाम् रश्मीणामायुर्धाः आयुर्धा असि आयुर्धा इत्यायुभोधाः अस्यायोः आयुर्मे मे धेहि देहि वर्चोधाः वर्चोधा असि वर्चोधा इति वर्चः धाः असि वर्चः वर्चो मयि मयि धेहि अमुम् भ्रातृव्यम् भ्रातृव्यमाभ्यः आभ्यो दिग्भ्यः दिग्भ्योऽस्यै दिग्भ इति दिग्भ्यः अस्यै दिवः दिवोऽस्मात् हा, अस्मादन्तरिक्षात् अन्तरिक्षादस्यै अस्यै पृथिव्याः पृथिव्या अस्मात् अस्मादन्नाद्यात् अन्नाद्याह्निः अन्नाद्यादित्यन्नाद्यात् अन्ना निर्भजामि भजामि निर्भक्तः निर्भक्तः निर्भक्त इति निः भक्तः स यम् यन्विष्मः विष्मय इति द्विष्मः सञ्ज्योतिषा ज्योतिषाभूवम् अभूवमैन्द्रीम् ऐन्द्रियमावृतम् आवृतमन्वावर्ते आवृतमित्यावावृतम् अन्वावर्ते सम् अन्वावर्त इत्यनो आवर्ते समहम् अहम् प्रजया प्रजयासम् प्रजयेति प्राजया सम्मया मया प्रजा प्रजासम् प्रजेति प्राजा समहम् अहगुम् राजः राजस्पोषेण पोषेण सम् सम्मयाः मया राजः राजस्पोषः पोषः समिद्धः समिग्धो अग्ने समिद्ध इति सम् विद्धः अग्ने मेः ते अग्नेः अग्नेदीद्यासम् ैद्यासं वसुमान् वसुमान् यज्ञः वसुमानिति वसुमान् यज्ञो वसीयान् वसीयान् भूयासम् भूयासमग्ने अग्नायो वुंषि आयो वुंषि च ववसे ववसा आसुभ सुवोर्जम् ऊर्जमिषम् इषम् च नः न पव स्वस्वपाः स्वपा अस्मे स्वपा इति सु अपाः अस्मे वर्चः अस्मे इत्यस्मे वर्चः सुवीर्यम् सुवीर्यमिति सु वीर्यम् पोषम् पोषकम् रयिम् रयिम् मयि मयीति मयि अग्ने गृहपते गृहपते सुगृहपतिः गृहपत इति गृहभते सुगृहपतिरहम् सुगृहपतिरिति सो त्वया गृहपतिना गृहपतिना भूयासम् गृहपतिनेति गृहापतिना भूयासगम् सुगृहपतिः सुगृहपतिर्मया सुगृहपतिरिति सुगृहपतिः मया त्वम् त्वम् गृहपतिना गृहपतिना भूयाः गृहपतिनेति गृहापतिना भूयाशपम् शतकम् हिमाः हिमास्ताम् तामाशिषम् आशिषमा आशिषमित्र्याशिषम् आशासे शासे तन्तवे तन्तवे ज्योतिष्मदीम् ज्योतिष्मदीम् ताम् तामाशिषम् आशिषमा आशिषणित्याशिषम् आशासे शासेमुष्मै अमुष्मै ज्योतिष्मदीम् ज्योतिष्मदीङ्कः कस्त्वा त्वा युनक्ति युनक्ति सः विमुञ्चत् मुञ्चत्वग्नेः अग्नेः व्रतपते व्रतपते व्रतम् व्रतपत इति व्रतापतेः व्रतमचालिषम् अचारिषम् तत् तदशकम् अशकम् तत् तन्मेः मे राधि राधियज्ञः यज्ञाबभूव बभूवसः स आबभूव बभूवसः स प्रा स वावृधे वावृध इति वावृधे स देवानाम् देवानामधिपतिः अधिपतिर्बभूव अधिपतिरित्यधिपतिः बभूव सः सो अस्मान् अस्माकुम् अधिपतीन् अधिपतीम् करोतु अधिपतीनित्यधिपतीन् करोतु वयम् वयग्निश्याम श्याम पतयः पतयो रयीणाम् रयीणामिति रयीणाम् गोमागुम् अग्ने गोमानिति गोमान् अग्नेविमान् अविमागुम् अश्वी अविमानित्यभिमान् अश्वी यज्ञः यज्ञो नृवत्सखा नृवत्सखा सदम् नृवत्सखेति नृवत् सखा सदवित् इदप्रमृश्यः अप्रमृश्य इत्यप्रमृष्यः इडावागुम् एषः इडावानिति इडावान् एषो असुर प्रजावान् दीर्घः प्रजावानिति दीर्घो रैः रैः पृथुबुध्नः पृथुबुध्नः सभावान् पृथुबुध्न इति पृथो बुध्नः स्वभावानिति सभावान् यथा वै वै समृतसोमाः समृतसोमा एवम् समृतसोमा इति समृता सोमाः एवम् वै वा एते एते समृतयज्ञाः समृतयज्ञायत् समृतयज्ञा इति समृतायज्ञाः यद्दर्शपूर्णमासो दर्शपूर्णमासौ कस्य दर्शपूर्णमासा विदि दर्शपूर्णमासौ कस्य वाह अह देवाः देवायज्ञम् यज्ञमागच्छन्ति आगच्छन्ति कस्य आगच्छन्तीत्या आगच्छन्ति कस्य वा वाना न बहूनाम् बहूनाम् यजमानानाम् यजमानाम् यो वै वै देवताः दे देवताः पूर्वः पूर्वः परिगृह्णाति परिगृह्णाति सः परिगृह्णातीति परिगृह्णाति स एनाः एनाश्वः स्वभूते भूते यजते यजत एतत् एतद्वै वै देवानाम् देवानामायतनम् आयतमैयत् आयतनमित्या आयतनम् यदाहवनीयः आहवनीयो अन्तरा आहवनीय इत्याहवनीयः अन्धराग्नि अग्निपशूनाम् अग्नि इत्यग्नि पशूनाम् गारहपत्यः गार्हवत्यो मनुष्याणाम् गार्हब्यैति गारः पत्यः मनुष्याणामन्वाहार्यपचनः अन्वाहार्यपचनः पितृणाम् अन्वाहार्यवचन इत्यन्वाहार्यपचनः पितॄणामग्निम् अग्निम् गृह्णाति गृह्णाति स्वे स्व एवयतने आयतने देवताः आयतन देवताः परि परिगृह्णाति गृह्णाति स्वभूते भूते यजते यजते व्रतेन व्रतेन वै वै मेध्यः मेध्योऽग्निः अग्निर्व्रतपतिः व्रतपतिरिति व्रतापतिः ब्राह्मणो व्रतभृत् व्रतभृद्व्रतम् व्रतभृदिति व्रताभृत् व्रतमुपैष्यन् वैष्यम् ब्रूयात् वैष्यन्त्युपा एष्यन् ब्रूयादग्नेः अग्नेः व्रतपते व्रतपते व्रतम् व्रतपतैः व्रतापतेः व्रतम् चरिष्यामि चरिष्यामीति इत्यग्निः अग्निर्वै वै देवानाम् देवानाम् देवानाम व्रतपदिस्तस्मै व्रतपतिरिति व्रतापतिः तस्मा एव प्रतिप्रोच्य प्रतिप्रोच्य व्रतम् प्रतिप्रोच्येति प्रतिप्रोच्य प्रथमा आलभते लभते बर्हिषा बर्हिषा पूर्णमासे पूर्णमासे व्रतम् पूर्णमास इति पूर्णमासे व्रतमुप उपैति एति मावास्यायामित्यमावावास्यायाम् एतद्धि एतयोः एतयोरायतनम् आयतनमुपस्तीर्यः आयतनमित्यायतनम् उपस्तीर्यः पूर्वः उपस्तीर्य इत्युपास्तीर्यः पूर्वश्च चाग्निः अग्निरपरः अपरश्च चेति इत्याहुः आहुर्मनुष्याः मनुष्या इति इन्नो न्वयि वा उपस्तीर्णम् उपस्तीर्णमिच्छन्ति उपस्तीर्णमित्युपास्तीर्णम् इच्छन्ति किम् किमुदेवाः देवा एषा ये येषाम् नवावसानम् नवावसानमुप नवावसानमिति न उपास्मिन् अस्मिन् स्वो यक्ष्यमाणे यक्ष्यमाणे देवताः देवता वसन्ति यदेवम् एवम् विद्वान् विद्वानग्निम् अग्निमुपसृणाति उपसृणाति यजमानेन उपसृणातीत्यपासृणाति यजमानेन ग्राम्याः ग्राम्याश्च च पशवः पशवोऽवरुद्ध्या आह अवरुद्ध्या आरण्याः अवरुध्या इत्यवारुध्या आह ग्राम्यानुपवसति उपवसति तेन उपवसतीत्युपावसति तेन ग्राम्यान् ग्राम्यानव अवरुन्धे रुन्धे यत् यदारण्यस्य आरण्यस्याश्नादि अश्नादितेन तेनारण्यान् आरण्यान् यत् यदनाशान् अनाशानुपवसेत् उपवसेदेत् कृतेवत्यः उपवसेदित्युपावसेत् पितृदेवत्य स्यात् पितृदेवत्य इति पितृदेवत्यः स्यादारण्यस्य आरण्यस्याश्नादि अश्नादीन्द्रियम् इन्द्रियम् वयि वारण्यम् आरण्यमिन्द्रियम् इन्द्रियमेव एवात्मन् आत्मन् धर्ते धर्ते यत् यदनाश्वान् अनाश्वानुपवसेत् उपवसेत् क्षोधुकः उपवसेदित्युपावसेत् क्षोधुकः स्यात् यदश्नीयात् अश्नीयात् रुद्रः रुद्रोऽस्य अस्य पशून् पशूनभि अभिमन्येत मन्येतापः अपोश्नाति अश्नाति तत् तन्न नेव इवाशितम् अशितम् नेव इवानशितम् अनशितम् न क्षोधुकः क्षोधुको भवति भवति न अस्य रुद्रः रुद्रः पशून् पशोनभि अभिमन्यते मन्यते वज्रः वज्रो वै वै यज्ञः यज्ञः क्षुत् क्षुत्खलु खलु वै वै मनुष्यस्य मनुष्यस्य भ्रातृव्यः भ्रातृव्यो यदना निदनाश्वान् अनाशानुपवसति उपवसति वज्रेण उपवसतीत्युप वसति वज्रेणैव एव साक्षात् साक्षात् क्षुधम् साक्षादिति साक्षात् क्षुधम् भ्रातृव्यम् भ्रातृव्यकम् हन्ति हन्तीति हन्ति यो वै वै श्रद्धाम् श्रद्धामनारभ्य श्रद्धामिति अनारभ्य यज्ञेन अनारभ्येत्यनारभ्य यज्ञेन यजते यजतेन स्य अस्येष्टाय इष्टाय श्रुत श्रद्दधते दधते वः अपःप्रणयति नयति श्रद्धा श्रद्धा वै श्रद्धेति श्रुतधा वा आपः आपः श्रद्धामेव श्रद्धामिति एवारभ्य आरभ्य यज्ञेन आरभेत्या आरभ्य यज्ञेन यजते यजत उभयेस्य अस्य देवमनुष्याः देवमनुष्या इष्टाय देवमनुष्या इति देवमनुष्याः इष्टाय श्रद् श्रद्दधते तथदेतत् तदाहुः आहुरदि अदिवै वा एताः एतावत्रम् वर्त्रम् नेदन्ति नेदन्त्यति अदिवाचम् वाचम् मनः मनो वाव वा ति अतिनेदन्ति नेदन्तीति इति मनसा मनसा प्रणयति नयतीयम् इयम् वै वै मनः अनयैव एैना आह येनाप्रणयति नयत्यस्कन्नहभिः अस्कन्नहविर्भवति अस्कन्नहविरित्यस्कन्नाहविः भवति यः यदेवम् एवम् वेद वेदयज्ञायुधानि यज्ञायुधानि सम् यज्ञायुधानीति यज्ञ आयुधानि सम्भरति भरति यज्ञः यज्ञो वै वैयज्ञायुधानि यज्ञायुधानि यज्ञम् यज्ञायुधानीति यज्ञ आयुधानि यज्ञमेव एव तत् तत्सम् सम्भरति भरति यदेकमेकम् एकमेककम् सम्भरेत् एकमेकमित्येकम् एकम् सम्भरेत्कृते वक्त्यानि सम्भरेदिति सम्भरेत् पितृदेवत्यानि स्युः पितृदेवत्यानिति पितृदेवत्यानि श्रुर्यत् यत्सः सः सर्वाणि सर्वाणि मानुषाणि मानुषाणि द्वे द्वे द्वे द्वे द्वे द्वे द्वे सम्भरति भरति याज्यानुवाक्ययोः याज्यानुवाक्ययोरेव याज्यानुवाक्ययोरिति याज्या अनुवाक्ययोः एव रूपम् रूपम् करोति करोत्यथोः अथो मिथुनम् अथो इत्यथोः मिथुनमेव एवयः यो वै वै दश दशयज्ञायुधानि यज्ञायुधानि वेद यज्ञायुधानीति यज्ञा आयुधानि वेदमुखतः अस्य यज्ञः यज्ञः कल्पते कल्पते च कपालानि कपालानि च साग्निहोत्रहवणी अग्निहोत्रहवणी च अग्निहोत्रहवणीयग्निहोत्रा हवणी चषोर्पम् शोर्पम् च कृष्णाजिनम् कृष्णाजिनम् च कृष्णाजिनमिति तृष्णाजिनम् च शम्या शम्या चोलोखलम् उलोखलम् च मुसलम् मुसलम् च सदृषत् चोपला उपला चैतानि एतानि वै वैदृशदृशयज्ञायुधानि यज्ञायुधानि यः यज्ञायुधानीति यज्ञायुधानि यदेवम् एवम् वेद वेदमुखतः मुखतोऽस्य अस्य यज्ञः यज्ञः कल्पते कल्पते यः यो प्रतिप्रोच्य प्रतिप्रोच्य यज्ञेन प्रतिप्रोच्य यज्ञेन यजते यजते द्विषन्तेरे द्विषन्तेऽस्य अस्य देवाहव्यम् दु� हव्यगम् हविः हविर्निरूप्यमाणम् निरूप्यमाणमभि निरूप्यमाणमितिनिः उप्यमानम् अभिमन्त्रयेत मन्त्रयेताग्निम् अग्निगुम् होतारम् होतालमिह इह तम् रम् हुवे इति देवेभ्यः देवेभ्य एव प्रतिप्रोच्य यज्ञेन प्रतिप्रोच्येति प्रतिप्रोच्य यज्ञेन यजते यजते द्विषुन्देले द्विषुन्देले स्य देवाः देवा हव्यम् देवा हव्यमेषः एष वै यज्ञस्य यद्न्यस्य ग्रहः गृहीत्वा गृहीत्वैव एव यज्ञेन यज्ञेन यजते यजते तत् तदुदित्वा उदित्वा वाचम् वाचम् यच्छति यज्ञस्य यज्ञस्य धृत्यैः धृत्या अथोः अथो मनसा अथो इत्यथोः मनसा वै वै प्रजापतिः प्रजापतिरि यज्ञम् प्रजापतिरिति यज्ञमतनुत अतनुतमनसा मनसैव एव तत् तद्यज्ञम् तनुते तनुते रक्षसाम् रक्षसामनन्वचाराय अनन्वचाराय यः अनन्वचाराय यो वै वै यज्ञम् यज्ञम् योगे यो आगते युनक्ति आगत इत्यागते युनक्ति युङ्क्ते युङ्क्ते युञ्जानेषु युञ्जानेषु कः कस्त्वायुनक्ति युनक्ति सः स त्वा त्वायुनक्तो युनत्विति इत्याह आह प्रजापतिः प्रजापतिर्वै प्रजापतिरिति प्रजापतिः वैकः कः प्रजापतिना प्रजापतिनैव प्रजापतिनेति प्रजापतिना एवैनम् तेन युनत्ति युनत्ति युङ्ते युङ्क्ते युञ्जानेषु युञ्जानेष्वियुञ्जानेषु प्रजाप्रतिर्यज्ञान प्रजापतिरिति प्रजाभिः यज्ञानसृजत असृजताग्निहोत्रम् अग्निहोत्रम् च अग्निहोत्रमित्यग्निहोत्रम् चाग्निष्टोमम् अग्निष्टोमम् च अन्निष्टोममित्यग्नि स्तोमम् च पौर्णमासीम् पौर्णमासीम् च पौर्णमासीमिति पौर्णमासीम् सौख्यम् मुक्थ्यम् चामाभास्याम् अमाभास्याम् च अमाभास्यामित्यमाभास्याम् चातिरात्रम् अतिरात्रम् यावदग्निहोत्रम् अग्निहोत्रमासीत् अग्निहोत्रमित्यग्निहोत्रम् आसीत् तावान् तावानग्निश्रोमः अग्निश्लोमो यावती अग्निष्टोम इत्यग्नि स्तोमः यावती पौर्णमासी पौर्णमासी तावान् पौर्णमासीति पौर्णामासी तावानुथ्यः उथ्यो यावती यावत्यमाभास्या अमावास्यातावान् अमावास्येत्यमावास्या तावानतिरात्रः अमा अतिरात्रो यः अतिरात्र इत्यतिरात्रः एवम् एवम् विद्वान् विद्वानग्निहोत्रम् अग्निहोत्रम् जुहोति अग्निहोत्रमित्यग्निहोत्रम् जुहोति यावत् यावदग्निष्टोमेन यावद अग्निष्ठोमेनोपाप्नोति अग्निष्टोमेनेत्यग्निस्तोमेन उपाप्नोति तावत् उपाप्नोतीत्युप आप्नोति तावदुप उपानोति आप्नोति यः एवम् एवम् विद्वान् विद्वान् पौर्णमासीम् पौर्णमासीम् यजते पौर्णमासीमिति पौर्णमासीम् यजते यावत् यावदुक्षेन उक्षेनोपाप्नोति उपाप्नोति तावत् उपाप्नोतीत्युप आप्नोति तावदुप उपा आप्नोति दि, आप्नोति यः एवम् एवम् विद्वान् विद्वानमाभास्याम् अमाभास्यायजके अमाभास्यामित्यमाभास्याम् यजते यावत् यावदतिरात्रेण यावद अतिरात्रेणोपाप्नोति अतिरात्रेणेत्यतिरात्रेण उपाप्नोति तावत् उपाप्नोतीत्युप आप्नोति तावदुप उपानोति आप्नोति परमेष्ठिनः परमेष्ठिनो वै वा एष यज्ञः यज्ञोऽग्रे अग्रासीत् आसीत् तेन तेन सह स परमाम् परमाम् काष्ठाम् काष्ठामगच्छत् तेन प्रजापतिम् प्रजापतिम् निरवासाय यत् प्रजापतिमिति प्रजापतिम् निरवासाय यदिनिः अवासायेत् येन प्रजापतिः प्रजापतिः परमाम् प्रजापतिरदि प्रजापतिः परमाङ्गाष्ठाम् काष्ठामगच्छत् अगच्छत्तेन तेनेन्द्रम् इन्द्रम् निरवासाय निरवासाय यत्तेन निरवासाय यदितिनिः अवासायेत् तेनेन्द्रः इन्द्रः परमाम् परमाङ्गाष्ठाम् काष्ठामगच्छत् अगच्छत्तेन तेनाग्निसोमौ अग्निसोमौ निरवासायत् अग्निशोमावित्यग्नीसोमो निरवासाय यत्तेन निरवासाय यः अवासायत् तेनाग्नीसोमौ अग्निसोमौ परमाम् अग्निशोमावित्यग्नीसोमौ परमाम् काष्ठाम् काष्ठामगच्छताम् अगच्छताम् यः एवम् एवम् विद्वान् विद्वान्नरिषपूर्णमासौ दर्शपूर्णमासौ यजते यजते परमाम् परमामेव एव काष्ठाम् काष्ठानाम् गच्छति वै वै प्रजातेन प्रजातेन यज्ञेन प्रजातेन यज्ञेन यजते यजते प्रजयाः प्रजया पशुभिः पशुभिरिति पशुभिः मिथुनैर्जायते जायते द्वादश द्वादशमासाः मासाः संवत्सरः संवत्सरो द्वादश संवत्सर इति संवत्सरः द्वादश द्वन्द्वानि द्वन्द्वानि दर्शपूर्णमासयोः द्वन्द्वानि इति द्वन्द्वानि दर्शपूर्णमासयोस्तानि दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः तानि सम्पाद्यानि सम्पाद्यानीति सम्पाद्यानीति सम्पाद्यानि इत्याहो आहुर्वत्सम् वत्सम् चोपावसृजति उपावसृजत्युखा उपावसृजतीत्युव अवसृजति उखाम् च चाधि चा अधिश्रयति श्रयत्यव अव च च हन्ति हन्ति घृषदौ घृषदौ च समाहन्ति समाहन्त्यधि समाहन्तीति समाहन्ति अधि च चपपते पपते कपालानि कपालानि च चोपा उपदधाति दधाति पुरोडाशम् पुरोडाशम् चाधिश्रयति अधिश्रयत्याज्यम् अधिश्रयतीत्यधीश्रयति आद्यम् च स्तम्भयजुश्च स्तम्भयजुरिति स्तम्बयजुः हरत्यभि अभि च गृह्णाति गृह्णाति वेदिम् वेदिम् च पत्नीम् च सम् सन्नह्यति नह्यति प्रोक्षणीः प्रोक्षणीश्च प्रोक्षणीरिति प्राक्षणीः चासादयति आसादयत्याज्यम् आसादयतीत्यासादयति आज्यम् चैतानि एतानि वै वै द्वादश द्वादश द्वन्द्वानि द्वन्द्वानि दर्शपूर्णनमासयोः द्वन्द्वानीति दर्श दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः तानि यदेवम् एवम् सम्पाद्य सम्पाद्ये यजते सम्पाद्येति सम्पाद्य प्रजातेन प्रजातेनैव प्रजातेनेतिप्राकारेण एव यज्ञेन यज्ञेन यजते यजते प्रजयाः प्रजया पशुभिः प्रजयेति प्राजयाः पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैर्जायते जायत इति जायते, जायते ध्रुवोऽसि असि ध्रुवः ध्रुवोऽहम् अहवंसजातेषु सजातेषु भूयासम् सजातेष्विति स सजाते जातेषु भूयासमिति इत्याह आह ध्रुवान् एवैनान् एनान् कृतेः कृत उग्रः उग्रोऽसि अस्युग्रह उग्रोऽहम् अहम् सजातेषु सजातेषु भूयासम् सजातेष्विति स जातेषु भूयासमिति इत्याह अप्रतिवादिन एव अप्रतिवादिन इत्यप्रतिवादिनः एवैनान् कृते विभोः अभिभोरसि अभिभोरित्यभिभोः अस्य विभोः अभिभोरहम् अभिभोरित्यभिभोः अहम् स जातेषु स्वजातेषु भूयासम् सजातेष्वि स सजाते सजाते जातेषु भूयासमिति इत्याह आहयः यदेव एवैनम् एनम् प्रत्युत्पिबीते प्रत्युद्बिबीते तम् प्रद्युद्बिबीध इति प्रति उत्पिबीते तमुप अस्यते युनज्मि युनज्मि त्वा ब्रह्मणा ब्रह्मणा दैव्येन इत्याह आहैषः एष वै वा योगस्तेन तेनैव एवैनम् एनम् युनक्ति यज्ञस्य वै वै समृद्धेन समृद्धेन देवाः समृद्धेनेति संवृद्धेन देवाः सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति सुवहाङ्गम् लोकमायन् आयनयज्ञस्य यज्ञस्य व्यर्थेन व्युर्थेनासुरान् व्यर्थेनेति वीरुद्धेन असुधान्तराः वी पराभावयम् अभावेन यत् इन्मे मे अग्नेः अग्ने अस्य अस्य यज्ञस्य यज्ञस्य निष्यात् निश्यादिति इत्याह आह यज्ञस्य यज्ञस्यैव एव तत् तत्समृद्धेन समृद्धेन यजमानः समृद्धेनेति समृद्धेन यजमानः सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवहागम् लोकमेति एत यज्ञस्य यज्ञस्य व्यर्थेन व्यर्थेन भ्रातृव्यान् व्यर्थेने दिवीर्धेन भ्रातृव्यान् परा भावयति भावयत्यग्निहोत्रम् अग्निहोत्रमेताभिः अग्निहोत्रमित्यग्निहोत्रम् एताभिर्व्याहृतीभिः व्याहृतीभिरुप व्याहृतीभिरिति व्याहृतीभिः उपसादयेत् सादये यज्ञमुखम् यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वा अग्निहोत्रम् अग्निहोत्रम् ब्रह्म अग्निहोत्रमित्यग्निहोत्रम् ब्रह्मैताः एताव्याहृतयः व्याहृतयो यज्ञमुखे व्याहृतय इति वि आहृतयः यज्ञमुख एव यज्ञमुख इति यज्ञामुखे एव ब्रह्म ब्रह्म कुरुते कुरुते संवत्सरे संवत्सरे पर्यागते संवत्सर इति संवत्सरे पर्यागत एताभिः पर्यागत इति पर्यागते एताभिरेव एवोप उपसाधयेत् साधयेद्ब्रह्मणा ब्रह्मणैव एवोभयतः उभयतः संवत्सरम् संवत्सरम् परि संवत्सरमिति संवत्सरम् परिगृह्णाति गृह्णाति दर्शपूर्णमासौ दर्शपूर्णमासौ चातुर्मास्यानि दर्शपूर्णमासाविति दर्शपूर्णमासौ चातुर्मास्यान्यालभमानः चातुर्मास्यानीति चातुः मास्यानि आलभमान एताभिः आलभमान एताभिर्व्याहृतेभिः व्याहृतेभिर्हवीगुंषि व्याहृतेभिर्ज व्याहृतीभिः हवीगृष्या आसादयेत् साधयेद्यज्ञमुखम् यज्ञमुखम् वै यज्ञमुखमिति यज्ञामुखम् वै दलशपूर्णनमासौ चातुर्मास्यानि दलशपूर्णनमासाविति दलशपूर्णमासौ चातुर्मास्यानि ब्रह्म चातुर्मास्यानीति चातुर्मास्यानि ब्रह्मैताः एताव्याहृतयः व्याहृतयो यज्ञमुखे व्याहृदय इति वि आहृदयः यज्ञमुख एव ब्रह्म ब्रह्म कृते कृते संवत्सरे संवत्सरे पर्यागते संवत्सर इति संवत्सरे पर्यागत एताभिः पर्यागत इति परि आगते एताभिरेव एवा आसादयेत् सादयेद्ब्रह्मणा उभयतः संवत्सरम् परि संवत्सरमिति संवत्सरम् परिगृह्णाति यद्वै वै, वै यज्ञस्य यज्ञस्य साम्नाः क्रियते साम्ना क्रियते राष्ट्रम् राष्ट्रम् यज्ञस्य यज्ञस्याशीः आशीर्गच्छति आशीरित्याशीः गच्छति यदृचा ऋचाविषम् विषय्यज्ञस्य यज्ञस्याशीः आशीर्गच्छति आशीरित्या आशीः गच्छत्यथ अथ ब्राह्मणः ब्राह्मणो अनाशीर्पेण यज्ञेन यज्ञेन यजते यजते सा विधेनीः साविधेनीरनुवक्ष्यन् सा विधेनीरिति सांविधेनीः अनवक्ष्यन्नेताः अनुवक्षन्नित्यनो अन अन वक्ष्यन् एताव्याहृतीः व्याहृतेः पुरस्ताद् व्याहृतीरिति आहृतीः पुरस्ताद्दध्यात् दध्याद्ब्रह्म ब्रह्मैव एव प्रतिपदम् प्रतिपदम् कुरुते प्रतिपदमिति प्रतिपदम् कुरुते तथा तथा ब्राह्मणः ब्राह्मणः साशीर्केण साशीर्केण यज्ञेन साशीर्केणेति सा यज्ञेन यजते यजतेयम् यम् कामयेत कामयेत यजमानम् यजमानम् भ्रातृव्यम् अस्य एद्यस्या, यज्ञस्य यज्ञस्याशीः आशीर्गच्छेत् आशीरित्याशीः गच्छेदिति इति तस्य तस्यैताः एताव्याहृतीः व्याहृतेः पुरोनुवाक्यायाम् व्याहृतीरिति वि आहृतीः प्रोलवाक्यायाम् दध्यात् प्रोल्वाक्यायामिति पुरः अनुवाक्यायाम् दध्याद्भ्रातृव्यदेवत्याः भ्रातृव्यदेवत्या वै भ्रातृव्यदेवत्येति भ्रातृव्या देवत्या वयि पुरोनुवाक्या पुरोवाक्या भ्रातृव्यम् पुरोनुवाक्येति पुरः अनुवाक्या भ्रातृव्यमेव एवास्य अस्य यज्ञस्य यज्ञस्याशीः आशीर्गच्छति आशीरित्याशीः गच्छति यान् यान् कामयेत कामयेदयजमानान् यजमानान् समावती समावत्येनान् एनान् यज्ञस्य यज्ञस्याशीः आशीर्गच्छेत् आशीरित्याशीः गच्छेदिति इति तेषाम् तेषामेताः एताम् व्याहृतीः व्याहृतेः प्रोल्वाक्यायाः व्याहृतीरितिवि आहृतीः प्रोल्वाक्यायार्धर्चे पुरोऽनुवाक्याया इति पुरः अनुवाक्यायाः अर्धर्च एकाम् अर्धर्चैत्यर्धार्चे एकान् दध्यात् दध्याद्याज्यायि याज्ञायि पुरस्तात् पुरस्तादेकाम् एकाञ्जायाः याज्ञायार्धर्चे अर्धर्च एकाम् अर्धर्च इत्यर्धार्चे एकाम् तथा तथैनान् एनान् समावती समावती यज्ञस्य यज्ञस्याशीः आशीर्गच्छति आशीरित्याशीः गच्छति आशीर यथा यथा वै वै पर्जन्यः पर्जन्यः सुवृष्टम् सुवृष्टम् वर्षति सुवृष्टमिति वर्षत्येवम् एवम् यज्ञः यज्ञो यजमानाय यजमानाय वर्षति वर्षति स्थलया स्थलयोदकम् उदकम् परिगृह्णन्ति परिगृह्णन्त्याशिषाः परिगृह्णन्तीति परिगृह्णन्ति आशिषा यज्ञम् आशिषा यज्ञम् यजमानः यजमानः परि परिगृह्णाति गृह्णाति मनः मनोऽसि मनसा प्राजावत्यमिति प्राजावत्यम् मनसा मा भूतेन भूतेन इत्याह आह मनः वै वै प्राजापत्यम् प्राजापत्यम् प्राजापत्यः प्राजावत्यमिति यज्ञः प्राजापत्य यज्ञो मनः मन एव यज्ञम् यज्ञमात्मन् आत्मन् धत्ते धर्तेवाक् अस्यैन्द्रिय ऐन्द्रिय सपद्मक्षयणि सपद्मक्षयणि वाचा सपद्मक्षयणीति सपद्नाक्षयणि वाचा माह ऐन्द्रियेण इन्द्रियेण आविश इत्याह आहैन्द्रि ऐन्द्रिय वै, वै वाग्वाचम् वाचमेव एवैन्द्रियम् ऐन्द्रियमात्मन् आत्मम् धत्ते धर्त इति धत्ते यो वै वै सप्तदशम् सप्तदशम् प्रजापतिम् सप्तदशमिति सप्तादशम् प्रजापतिम् यज्ञम् प्रजापतिमिति प्रजापतिम् यज्ञमन्वायत्तम् अन्वायत्तम् वेद अन्वायत्तमित्यनो आयत्तम् वेदप्रति प्रतियज्ञेन यज्ञेन तिष्ठति तिष्ठति न यज्ञात् यज्ञाद्धृगुंसते भृगुंसदा आश्रावय श्रावयति इति चतुरक्षरम् चतुरक्षरमस्तु चतुरक्षरमिति चतुः अक्षरम् अस्तु श्रौषड् श्रौषडिति इति चतुरक्षरम् चतुरक्षरं यज चतुरक्षरमिति चतुः अक्षरम् यजेति इति द्व्यक्षरम् द्व्यक्षरञ्जे द्व्यक्षरमिति द्वि अक्षरम् ये यजामहे इति पञ्चा अक्षरम् पञ्चा अक्षरम् द्व्यक्षरः पञ्चा अक्षरम् द्व्यक्षरोपषट्कारः द्व्यक्षर इति वषड्गार एषः वषड्गार इति वषडकारः एष वै वै सप्तदशः सप्तदशः प्रजापतिः सप्तदश इति सप्तादशः प्रजापतिर्यज्ञम् प्रजापतिर्यप्रजापतिः अन्वायत्त इत्यनो आयत्तः यदेवम् एवम् वेद वेदप्रति प्रतियज्ञेन यज्ञेन तिष्ठति तिष्ठति न यज्ञाद् यज्ञाद्भ्रगुंसदे भ्रगुंसदे यः यो वै वै यज्ञस्य यज्ञस्य प्रायणम् प्रायणम् प्रतिष्ठाम् प्रायणमिति प्रायणम् प्रतिष्ठामुदयनम् प्रतिष्ठामिति प्रतिष्ठाम् उदयनम् वेद उदयनमित्युदयनम् वेद प्रतिष्ठितेन प्रतिष्ठितेनारिष्टेन प्रतिष्ठितेनेति प्रतिष्ठितेन अरिष्टेन यज्ञेन यज्ञेन सर्गस्थाम् सर्गस्थाम् गच्छति सर्गस्थामिति संस्थाम् आश्रावय श्रावयास्तु अस्तु श्रौषड् श्रौषड्यज यजये ये यजामहे यजामहे वषद्गारः वषद्गार एतत् वषद्गार इति वषद्गारः एतद्वै वै यज्ञस्य यज्ञस्य प्रायणम् प्रायणमेषा प्रायणमिति एषा प्रतिष्ठा प्रतिष्ठैतत् प्रतिष्ठेति प्रतीस्था एतदुदयनम् उदयनम् यः उदयनमित्युत् अयनम् यदेवम् एवम् वेद एतप्रतिष्ठितेन प्रतिष्ठितेनारिष्टेन प्रतिष्ठितेनेति प्रतिष्ठितेन अरिष्टेन यज्ञेन यज्ञेन सङ्गस्थाम् सङ्गस्थाम् गच्छति सङ्गस्थामिति संस्थाम् गच्छति यः यो वै वै सूनृतायै दोहम् दोहम् वेद वेददुहे दुह एव देवैनाम् एनाञ्ज्ञः यज्ञो वै वै सोमृता सोमृता आ इत्या अयिव देवैनाम् एनामह्वद् अह्वदस्तु अस्तु श्रौषड् श्रौषडिति इत्युपावास्राग उपावा श्राज्ञ उपावा श्रागि इत्युपा उवास्राग यजेति इत्युत उदनैषीत् अनैषीद्ये ये यजामहे यजामः इति इत्युप उपासदत् असदत् वषट्कारेण वषट्कारेण दोग्धि वषट्कारेणेति वषट्कारेण दोग्ध्येषः एष वै वै सोमृतायै सोमृतायै ोहो यः यदेवम् एवम् वेद वेददुहे दुहदेव एवैनाम् एनाम् देवाः एवा दे देवा, देवा वै वै सत्रम् सत्रमासद आसद तेषाम् तेषाम् दिशः दिशो दस्यन् अदस्यन्ते तदेताम् एतामार्द्राम् एता आर्द्राम् पङ्क्तिम् पङ्क्तिमपश्यन् अपश्यन्ना आश्रावय श्रावयेति इति पुरोभातम् पुरोभातमजनयन् पुरोभातमिति पुरः वातम् अजनयन्नस्तु अस्तु श्रौषड् श्रौषडिति इत्यभ्रम् अभ्रगंसम् समप्लावयन् अप्लावयनयज यजेति इति विद्युतम् विद्युतमजनयन् विद्युतमिति विद्युतम् अजनयनये यजामहे यजामः इति प्र अवर्षयन्नभि अभ्यस्तनयन् अस्तनयन्वषत्कारेण अषट्कारेण ततः अषत्कारेणेति वषट्कारेण ततो वै वैतेभ्यः तेभ्यो दिशः दिशः प्राप्यायन्त प्राप्यायन्तयः यदेवम् एवम् वेद वेदप्रास्मै अस्मै दिशः दिशः प्यायन्ते प्यायन्ते प्रजापतिम् प्रजापतिम् त्वो वेद प्रजापतिमिति त्वो वेदः प्रजापतिः त्वो वेदेति त्वः वेद प्रजापतिस्त्वम् वेद प्रजापतिरिति प्रजापतिः त्वम् वेदयम् त्वम् वेदेति त्वम् प्रजापतिः प्रजापतिर्वेद प्रजापतिरिति प्रजापतिः वेदसः स पुण्यो भवति भवत्येषः एष वै वै छन्दस्यः प्रजापतिः प्रजापतिरा प्रजापतिरिति प्रजापतिः श्रावय श्रावयास्तु अस्तु श्रौषड् श्रौषड्यय यजये ये यजामहे यजामहे वषत्कारः वषद्कारो यः वषद्कार एवम् वेद वेदपुण्यः पुण्यो भवति भवति वसन्तम् वसन्तमऋतूनाम् ऋतूनाम् प्रीणामि प्रीणामीति इत्याह आहर्तवः ऋतवो वै, वै प्रयाजा प्रयाजाः प्रयाजा ऋतून् प्रयाजायि प्रायाजाः ऋतूनेव एव प्रीणाति प्रीणादिते तेऽस्मै अस्मै प्रीताः प्रीता यथा पूर्वम् यथापूर्वम् कल्पन्ते यथापूर्वमिति यथापूर्वम् कल्पन्ते कल्पन्ते कल्पन्तेऽस्मै अस्मादवः कृतभोजः य एवम् एवम् वेदा वेदाग्निसोमयोः अग्निसोमयोरहम् अग्निसोमयोरित्यग्निसोमयोः अहम् देवयज्ञया देवयज्ञया चक्षुष्मान् देवयज्ञयेति देवायज्ञया चक्षुष्मान् भूयासम् भूयासमिति इत्याह आहासोमाभ्याम् अग्निसोमाभ्याम् वै अग्निसोमाभ्यामित्यग्नीसोमाभ्याम् वै यज्ञः यज्ञश्चक्षुष्मान् चक्षुष्मान् ताभ्याम् ताभ्यामेव देवचक्षुः चक्षुरात्मन् आत्मन् धत्ते धत्ते अग्नेः अहम् देवयुज्ञया देवयुज्ञया अन्नादः देवयज्ञेति देवायुजया अन्नादो भूयासम् अन्नाद इत्यन्नादः इत्याह आहाग्निः अग्निर्वै वै देवानाम् देवानामन्नादः अन्नादस्तेन अन्ना द्यम, अन्ना अन्नाद इत्यन्नादः तेनैव एवान्नाद्यम् अन्नाद्यमात्मन् अन्नाद्यमित्यन्नाद्यम् आत्मम् धत्ते धत्ते लब्धिः दब्धिरसि अस्य दब्धः अलब्धो इत्याह आहैतया एतया वै वै देवा असुरान् असुरान् अदब्नुवन् अदब्नुवन्तया तयैव देवभ्रातृव्यम् भ्रातृव्यम् दब्नोति लब्नोत्यग्नीसोमयोः अग्निसोमयोरहम् अग्निसोमयोरित्यग्नीसोमयोः अहम् देवयज्ञया देवयज्ञया वृत्रः देवयज्ञयेति देवयज्ञया वृत्रः भूयासम् वृत्रहेति वृत्राः भूयासमिति इत्याह आहाग्निसोमाभ्याम् अग्निसोमाभ्याम् वै अग्निसोमाभ्यामित्यग्नीसोमाभ्याम् वा इन्द्रः इन्द्रो वृत्रम् वृत्रमहन् अहन्ताभ्याम् ताभ्यामेव एव भ्रातृव्यम् भ्रातृव्यग्निस्तृणुते श्रृणुते इन्द्राग्न्योः इन्द्राग्न्योरहम् इन्द्राग्न्योरितीन्द्राग्न्योः अहम् देवयज्ञया देवयज्ञयेरिन्द्रियावी देवयज्ञयेति देव यज्ञया इन्द्रियाव्यनुनादः अन्नादो भूयासम् अन्नादैत्यन्ना अधः भूयासमिति इत्याह आहेन्द्रियावी इन्द्रियाव्येव एवान्नादः अन्नादो भवति अन्नादैत्यन्ना अधः भवतीन्द्रस्य इन्द्रस्याहम् अहम् देवयज्ञया देवयज्ञयेन्द्रियावी देवयज्ञयेति देवयज्ञयाः इन्द्रियावी भूयासम् भूयासमिति इत्याह आहेन्द्रियावी इन्द्रियाव्येव एव भवति भवति महेन्द्रस्य महेन्द्रस्याहम् महेन्द्रस्येति महान्द्रस्य अहम् देवयज्ञयाः देवयज्ञया जयमानम् देवयज्ञयेति देवायुजया जयमानम् महिमानम् महिमानम् गमेयम् गमेयमिति इत्याह आह जयमानम् जयमानमेव एवमहिमानम् महिमानम् गच्छति गच्छत्यग्नेः अग्नेः सृष्टकृतः सृष्टकृतोऽहम् सृष्टकृत इति सृष्टा कृतः अहम् देवयुज्ञयाः एव यज्ञयायुष्मान् देवयज्ञयेति देवयुज्ञया आयुष्मान् यज्ञेन यज्ञेन प्रतिष्ठा प्रतिष्ठाम् गमेयम् प्रतिष्ठामिति प्रतिष्ठाम् गमेयमि इत्याह आहायुः आयुरेव एवात्मन् आत्मन् धत्ते धत्ते प्रति प्रतियज्ञेन यज्ञेन तिष्ठति तिष्ठतीतिष्ठति इन्द्रम् वः वो विश्वतः विश्वतःपरि परिहवामहे हवामहे जनेभ्यः जनेभ्यः जने जने अस्माकमस्तु अस्तु केवलः केवल इति केवलः इन्द्रन्नरः नरो नेमधिता नेमधिता हवन्ते यत्पार्याः पार्याय नजते य शूरो दृषाता दृशाता शवसः दृशातेतिन्द्रे साता शवसश्चकानः चकान आ गोमति गोमति व्रजे गो गोमतीदिगोति व्रजे भज भजा भ्रजा, त्वम् प्रन्नः नैतिनः इन्द्रियाणि शरक्रतो शरक्रतो जातेः ते जनेषु जनेषु प्रञ्चसु प्रञ्चस्विति पञ्चास्व इन्द्रतानि तानि ते ता र आवृणे वृण इति वृणे अनुते ते दाई दायि महे मह इन्द्रियाय सत्रा सत्रादे ते विश्वम् विश्वमनु अनुवृत्रहत्ये वृत्रहत्य इति वृत्राहत्ये अनुक्षत्रम् क्षत्रमनु अनुसह सहो यजत्र यजत्रेन्द्र इन्द्रदेवेभिः भी, देवेभिर्नु अनुते दे, ते नृषह्ये नृषह्य इति नृसह्ये आ यस्मिन् सप्त सप्तवासवाः वासवास्तिष्ठन्ति तिष्ठन्ति स्वारुहो यथा स्वारुह इति स्वारुहः यथेर्यथा ऋषयः अदीर्घश्रुत्तमः दीर्घश्रुत्तम इन्द्रस्य दीर्घश्रुत्तम इति दीर्घश्रुततमः इन्द्रस्य घर्मः घर्मो अतिथिः अतिरित्यतिथिः आवासु पक्वम् पक्वमैरयः ऐरय आसूर्यम् सूर्यकुम् रोहयः रोहयो दिवि दिविति सामन्य सामन्तपद तपता सुवृत्तिभिः सुवृत्तिभिर्जुष्टम् सुवृत्तिभिरिति सुवृत्तिभिः जुष्टम् निर्वणसे निर्वणसे गिरः गिरैति गिरः इन्द्रमित् यद्गाथिनः गाथिनो बृहद् बृहदिन्द्रम् इन्द्रमर्केभिः अर्केभिरर्किणः अर्किण इत्यर्किणः इन्द्रम् गायन्द्रित्वा त्वा गायत्रिणः गायत्रिणोर्चन्ति अर्चन्त्यर्कम् अर्कमर्किणः अर्किण इत्यर्किणः ब्रह्माणस्त्वा त्वा त्वाशतक्रतो सदक्रतौ सदक्रत इति क्रतो उद्वगुंशम् वघुंशमिव इव येमिरे येमिर इति येमिरे प्रभरेम मा भरेमा मनीषा मनीषा वोषिष्ठदावन्ने ए ओषिष्ठदावन्ने वो सुमतिम् वोषिष्ठदान्न इत्योषिष्ठदान्ने ए सुमतिम् गृणानाः सुमतिमिति सोमतिम् गृणाना इति गृणानाः इदमिन्द्र इन्द्र प्रति प्रतिहव्यम् हव्यम् गृभाय गृभाय सत्याः सत्याः सन्तु सन्तु यजमानस्य यजमानस्य कामाः कामा इति कामाः विवेशयत् विन्वा मा धिषणाः धिषणा जजानजानस्तवैः स्तवैः स्तवै पुरा पुरा बाल्यात् पाल्यादिन्द्रम् इन्द्रमह्नः अह्न इत्यह्नः ब्रह्मसो यत्र यत्र पीपरत् पेपनद्यथा यथा नः नो नावा नावेव हिवयान्तम् यान्तमुभये उभये हवन्दे हवन्त इति हवन्दे प्रसम्राजम् सम्राजम् प्रथमम् सम्राजमिति सम्राजम् प्रथममध्वराणा अध्वराणामगुम्होमुचम् वृषभम् अगुम्हामृषमित्यगुं हामुचम् वृषभम् यज्ञियाना यज्ञियानामिति अपान्नपातम् अपाकमश्विना अश्विना हयन्तम् हयन्तमस्मिन् अस्मिन्नरः नर इन्द्रियम् इन्द्रियम् धत्तम् दत्तमोजः ओज इत्योजः विनः न इन्द्र इन्द्रमृधः रुधो जहि यहि नीचा नीचा यच्छ यच्छ पृतन्यतः प्रतन्यत इति पृतन्यतः अधस्पदन्तम् अधस्पदमित्यधः पदम् कमीम् यीम् कृधि कृधियः यो असान अस्माकम् अभिदासति अभिदासतीत्यभिदासति इन्द्रक्षत्रम् क्षत्रमभि अभिवामम् वाममोजः ओजोजायथाः अजायथा वृषभ वृषभजर्षणीना जर्षणीनामिति जर्षणीनाम् अपानुदः अनुधोजनम् जनममित्रयन्तम् जनम अमित्रयन्तमुरुम् अमित्रयन्तमित्यमित्रायन्तम् गुरुम् ेवेभ्यो कृणोः कृणोरु लोकम् लोकमिति लोकम् मृगो न भीमः भीमः कुचरः कुचरो गिरिष्ठाः गिरिष्ठाः परावतः गिरिष्ठा इति गिरीस्थाः परावत आ परावत इति परावतः आजगाम जगामहापरस्याः अरस्या इति परस्याः परस्या परस्या सगुम् समुंशाय सक्दुं, सघंशाय पविम् सघंसायेति संशाय पविन्द्र इन्द्रदिग्मम् विग्मम् वि द्विशत्रून् शत्रोगुन्ताढि ताढिवि विमृधः वृधोनुदस्व मुदस्वेति मुदस्व विशत्रून् शत्रून् विमृधः वृधोनुद मुदविवृत्रस्य वृत्रस्य हनूः हनूरुज हनो इति हनोः रुजेति रुज वि मन्यम् इन्द्रभावितः भावितोमित्रस्य अमित्रस्याभिदासतः अभिदासत इत्यभिदासतः त्राता रविन्द्रम् इन्द्रमवितारम् अवितारविन्द्रम् इन्द्रकुम् हवे हवे हवे हवे हवे हव इति हवे हवे, हवे, हवे हुवेणु शक्रम् शक्रम् पुरुहोतम् पुरुहोतमिन्द्रम् पुरुहोतमिति पुरोहोतम् इन्द्रग्रः स्वस्ति स्वस्तिनः नो मघवा मघवेति मघावा धात्विन्द्रः इन्द्र इतिन्द्रः माते ते, ते अस्या अस्यागम् सहसावन् सहसावन्परिष्टौ सहसावन्निति सहसावन् परिष्टावघाय परिष्टा अघाय भूम भूमहरिवः हरिवः परादै हरिव इति हरिवः इति परादै त्रायस्वनः नो भृगेभिः अभृगेभिर्वरोथैः वरोथैस्तव तव प्रियासः प्रियासः सूरिषु अनवस्ते ते रथम् अश्वाय रक्षन् रक्षम् पष्टा वज्रम् वज्रम् पुरुहूद पुरुहोदद्युङ्गम् पुरुहूदेति द्युमन्तमिति द्युमन्त्रम् ब्रह्माण इन्द्रम् इन्द्रम् महयन्तः महयन्तो अर्कैः अर्कैरवर्धयन् अवर्धयन् अहये अहये हन्तवै हन्तवा उ उविद्यु कृष्णे यत् कर्तेः ते वृषणः वृषणो रुशन, अर्कम् अर्कमर्चान् अर्चानिन्द्र इन्द्रग्रावाणः रावणो अदितिः अदितिः सजोषाः सजोषा इति स ये ये पवयः अवयोरथाः रथा इन्द्रेषिताः इन्द्रेषिता अभ्यवर्तन्त इन्द्रेषिता इतीन्द्रा इषिताः अभ्यवर्तन्त दस्योने अभ्यवर्तन्तेत्यधि अवर्तन्त प्रथमकाण्डे षष्ठः प्रश्नः समाप्तः